श्रुतायुरपि कालिङ्गो मणिरत्नमनुत्तमम् दक्षिणात् सागराभ्याशात् प्रावारांश्च परः शतान् औदकानि सरत्नानि रत्नानि बलिं चादाय भारत अन्येभ्यो भूमिपालेभ्यः पाण्डवाय न्यवेदयत् दार्दुरम् चन्दनम् मुख्यम् भारान् षण्डवतीम् ध्रुवम् पाण्डवाय ददौ पाण्ड्य शङ्खांस्तावत चन्दनागरु चानन्तम् मुक्ता वैदूर्यचित्रकाः चोलश्च केरलश्चोभौ ददतुः पाण्डवाय वै अश्मको हेम शृङ्गीश्च दोग्ध्रीर्हेमविभूषिताः स वत्साः कुम्भदोहाश्च गाः सहस्राण्यदाद्दश सैन्धवानाम् सहस्राणि हयानाम् पञ्चविंशतिम् अददात् हेममाल्यैरलङ्कृतान् मा सौवीरो हस्तिभिर्युक्तान् रथांश्च त्रिशतावरान् जातरूपपरिष्कारान् मणिरत्नविभूषितान् मध्यम् दिनार्कप्रतिमांस्तेजसा प्रतिमानिव बलिं च कृत्स्नमादाय पाण्डवाय न्यवेदयत् अवन्ति राजो रत्नानि विविधानि सहस्रशः हाराङ्गदांश्च मुख्यान् वै विभूषणं दासी विभूषणम् बलिमादाय भारत सभाद्वारिनरश्रेष्ठ दिदृक्षुरवतिष्ठते दशार्णश्चेदिराजश्च शूरसेनश्च वीर्यवान् बलिञ्च कृत्स्नमादाय पाण्डवाय न्यवेदयत् काशिराजेन हृष्टेन बलिराजन् निवेदितः अशीतिगोसहस्राणि शतान्यष्टौ च दन्तिनाम् विविधानि च रत्नानि काशिराजो बलिं ददौ कृतक्षणश्च वैदेह कौसलश्च बृहद्बलः दधतुर्वाजिमुख्यांश्च सहस्राणि चतुर्दश शैव्योऽवसादिभिः सार्धम् त्रिगर्तो मालवयस्सह तस्मै रत्नानि ददतुरेकैको भूमिपोमितम् हारांस्तु मुक्तान्मुख्यांश्च विविधं विभूषणं विभूषणम् शतं दासीसहस्राणां कार्पासिकनिवासिनां श्यामास्तन्व्यो दीर्घकेश्यो हेमाभरणभूषिताः शूद्रा विप्रोत्तमार्हाणि राङ्कवाण्यजिनानि च बलिञ्चकृत्स्नमादाय भरुपच्छनिवासिनः उपनिन्युर्महाराज हयान् गान्धारदेशजान्